ीङ्कारासनगर्भितानलसिखां सौ क्लीं कलां बिभ्रती सौवर्णां वरधारिणीं वरसुधा दहतां त्रिनेत्रोज्ज्वला वन्दे पुस्तकपाशमङ्कुशधरां स्रग्भूषितामुज्ज्वलां त्वां गौरीं पुरा परात् परकला श्रीचक्र सञ्चारिणी िखा देवि कवचदेवी नेत्रदेवी हस्तदेवि कामेश्वरि भगमालिनि नित्यक् मेरुण्डे वह्निवासिनि महावज्रेश्वरि शिवदूति त्वरिते जये <Gülüyor> सर्वमम् यि कालतापनमयि धर्माचार्यमयि मुक्तकेलीश्वरमयि दीपकलानाथमयि विष्णुदेवमयि प्रभाकर देवमयि देव मनोजदेवमयि सिद्धि संशोभिणी चक्रस्वामिनी <Sessimus> प्रकटयोगी चक्रस्वामिनी गुप्तयोगिनी अनङ्ग कुसुमे अनङ्ग मेखले अनङ्ग अनङ्गरे अनङ्गरेखे अनङ्ग वेगिनी कुसे। संक्षोभणचक्रस्वामिनि गुप्तरयोगिनि सर्वसंक्षोभिणि सर्वविद्राविणि सर्वाकर्षिणि सर्वाह्लादिनि सर्वसंमोहिनि सर्वस्तम्भिनि सर्वशङ्करि सर्वरञ्जनी सर्वोन्मादिनि सर्वाधसाधिके सर्वसम्पत्पूरिणि सर्वमन्त्रमयी सर्वद्वन्द्वक्षयङ्करि सर्वसौभाग्यदायकचरिक्रस्वामिनि सुन्दरी साधक चक्रस्वामिनि कुरोगिनि सर्वे सर्वशक्ते सर्वैश्वर्यप्रदायिनि सर्वज्ञानमयी सर्वव्याधिविनाशिनि सर्वाधारस्वरूपे छ सू रचक्रस्वामिनि रहस्ययोगिनी पाणिनी चापिनि पासिनी अङ्कुशिनि महावज्रेश्वरी महा महाब्रेश्वरि महाभगवालिनि सर्वसिद्धिव्रतचक्रस्वामिनी सुन्दरी महामहेश्वरी महामहाराणी महामहाशक्ति महामहागुप्ते महा महामहा महा महामहानन्दे महामहास्कन्दे महामहाशये महामहाश्री चन्दक्रनगर सम्राणि नमस्ते नमस्ते